चतुष्पञ्चाशत्तमोऽध्यायः सौतिरुवाच तत आहूय पुत्रम् स्वम् चरत्कारुर्भुजङ्गमा वासुकेर्नागराजस्य वचनादिदमब्रवीत् अहम् तव पितुः पुत्रभ्रात्रा दत्तानिमित्ततः कालः सचायम् कथम् आस्ति किम् निमित्तम् मम पितुर्दत्ता त्वम् तन्ममा चक्षुतत्वेन श्रुत्वा कर्तास्मि तत्तथा तत आचष्टसा तस्मै बान्धवानाम् हितैषिणी भगिनी नागराजस्य जरत्कारुरविक्लवा जरत्कारुर्वाच पन्नगानामशेषाणाम् माता कद्रूरिति श्रुता तया शप्ता ऋषितया सुता यस्मान् निबोधत उच्चैश्रवासोष्वराजो यन्मिथ्या मम विनतार्धाय पणिते दासी भावाय पुत्रकाः जनमे वो यज्ञे धक्ष्यत्यनिलसारथि तत्र पञ्चत्वमापन्नाः प्रेत गमिष्यथ ताञ्च सप्तवतीम् देवः साक्षाल्लोक पितामहः एवमस्विति तद्वाक्यम् प्रोवाचानुमुमोद च वासुकिश्चापि तत् श्रुत्वा पितामहवचस्तदा अमृते मथिते तात देवान्च्छरणमीयुवान् सिद्धार्थश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् भ्रातरम् मे पुरस्कृत्य पितामहमुपागमन् एतम् प्रसादयामासुः सुराः सर्वेभ्य राज्ञा वासुकिना सार्धम् शापोऽसौ न देवा ऊचुः वासुकिर्नागराजोऽयम् दुःखितो ज्ञाति कारणात् अभिशापः समातुस्तु भगवन्न भवेत् कथम् ब्रह्मोवाच जरत्कारुर्जरत्कारुम् जरत्कारु याम् भार्याम् समवाप्स्यति तत्र जातो द्विजः शापन्मोक्षयिष्यति पन्नगान् एतच्छ्रुत्वा तु वचनम् वासुकिः पन्नगोत्तमः प्रादान् माममरप्रख्यतव पित्रे महात्मने प्रागेवानागते काले तस्मात् त्वम् मय्य जायथाः अयम् स कालः सम्प्राप्तो भ्रातरम् चापि ते तस्मात् प्रातुमर्हसि पावकात् नमोघम् तु कृतम् तव धीमते पित्रे दत्ता विमोक्षार्थम् कथम् वा पुत्रमन्यसे सौतिरुवाच एवमुक्तस्तथेत्युक्त्वा सास्ती को मातरम् तदा अब्रवीद् दुःखसन्तप्तम् वा जीवयन्निव अहम् त्वाम् मोक्षयिष्यामि वासुके पन्न गोत्तम तस्माच्छापान् महासत्त्व भव स्वस्थमनानागनहिते विद्यते भयम् भविष्यति न मेवागनृतम् प्राहस्वैरेष्वपि कृतोऽन्यथा तम् वै नृपवरम् गत्वा आस्तीकपरिघूर्णामि हृदयम् मे विदीर्यते दिशो न प्रतिजानामि ब्रह्मदण्ड निपीडितः आस्तीक उवाच न सन्तापस्त्वयाकार्यः कथञ्चित्पन्न गोत्तम प्रदीप्ताग्नेः समुत्पन्नम् नाशयिष्यामि ते महाघोरं ब्रह्मदण्डम् महाघोरम् कालाग्नि समतेजसम् कथञ्चन का सौतिरुवाच ततः स आधाय चात्मनोऽेषु जगामत्वरितो भृशम् जनमे जयस्य तम् यज्ञम् सर्वैः समुदितम् गुणैः मोक्षाय भुजगेन्द्राणामास्तीको द्विज सत्तमः सगत्वा पश्यदास्तीको यज्ञायतनमुत्तमम् वृतम् सदस्यैर्बहुभिः सूर्यवः निशमप्रभैः स तत्र वारितो द्वास्थैः प्रविशन् द्विज सत्तमः परन्तपः स प्राप्य यज्ञायतनम् वरिष्ठम् द्विजोत्तमः तुष्टाव राजानमनन्तकीर्तिम् ऋत्विक् सदस्यांश्च आदिपर्वणि आस्तीकपर्वणि सर्पसत्रे आस्तीकागमने चतुष्पञ्चाशत्तमोऽध्यायः